स्मशानकालिका काली भद्रकाली कपालिनी का गृह्यकाली महाकाली कुरुकुल्लाविरोधिनी कालिका कालरात्रिश्च महाकालनिताम्बिनी कालभैरवभार्या च कुलवर्त्मप्रकाशिनी कामदाकामिनी कन्याकमनीयस्वरूपिणि कस्तूरीरसलिप्ताङ्गी कुञ्जरेश्वरकामिनी ककारवर्णसर्वाङ्गी कामिनी कामसुन्दरी कामार्ता कामरूपा च कामधेनुकलावती कान्ता कामस्वरूपा च कामाख्याकुलकामिनी कुलीनाकुलवत्यम्बा दुर्गा दुर्गतिनाशिनी कौमारी कलजा कृष्णा कृष्णदेहा कुछन कृशोदरी कृशाङ्गी कुलिशाङ्गीजीकृङ्कारी कमला करालास्या कराली च कुलकान्ता पराजिता उग्रा उग्रप्रभा दीप्ता विप्रचित्ता महाबला नीलाघना मेघनादा मात्रामुद्रा मितामिता ब्राह्मी नारायणी भद्रा सुभद्रा भक्तवत्सला माहेश्वरी च चामुण्डा वाराही नारसिंहिका वज्राङ्गी वज्रकङ्कालान्द्रमुण्डस्रग्णी शिवा मालिनी नरमुण्डालीगलद्रक्तविभूषणा रक्तचन्दनसिक्ताङ्गी सिन्दूरारुणमस्तका घोररूपा घोरदंशाोराघोरतराशुभा महादंशा महामाया सुदन्तीयुगदन्तुरा सुलोचनाविरूपाक्षी विशालाक्षि त्रिलोचना शारदेन्दुप्रसन्नास्यास्फुरत्स्मिताम्बुजेक्षणा अट्टहासा प्रफुल्लास्यास्मेरवक्त्रा सुभाषिणी प्रफुल्लपद्मवदनास्मितास्याप्रियभाषिणी कोटराक्षी कुलश्रेष्ठा महती बहुभाषिणी सुमतिकुमतिश्चण्डा च केशी दीर्घं केशीमहाकचा प्रेतदेहा कर्णपूरा प्रेता पाणिसुमेखला प्रेतासना प्रियप्रेता पुण्यदा कुलपण्डिता पुण्यालया पुण्यदेहा पुण्यश्लोका च पावनी पूता पवित्रा परमा परा पुण्यविभूषणा पुण्यनाम्नी भीतिहरा वरदा खड्गपाशिनी नृमुण्डहस्ता शान्ता च छिन्नमस्ता सुनासिका दक्षिणा श्यामला श्यामा शान्ता पीनोन्नतस्तनी दिगम्बरी घोररावासृक्कान्तरक्तवाहिनी घोररावा शिवासङ्गा निस्सङ्गा मदनातुरा मत्ताप्रमत्ता मदना सुधा सिन्धुनिवासिनी अभिमत्ता महामत्ता सर्वाकर्षणकारिणी गीतप्रिया वाद्यरता प्रेतनृत्यपरायणा चतुर्भुजा दशभुजा अष्टदशभुजा तथा कात्यायनी जगन्माता जगती परमेश्वरी जगद्बन्धुर्जगद्धात्री जगदानन्दकारिणी जगज्जीवती हैमवती मायामहालया नागयज्ञोपवीताङ्गी नागिनी नागशायिनी नागकन्यादेवकन्या गान्धारी किन्नरीसूरी मोहरात्रिमहारात्रि दारुणामासुरासुरी विद्याधरी वसुमती यक्षिणी योगिनी जरा राक्षसी डाकिनी वेदमयी वेदविभूषणा श्रुतिस्मृतिमहाविद्या गुह्यविद्या पुरातनी चिन्ता चिन्ता स्वधा स्वाहा निद्रा तन्द्रा च पार्वती अपर्णा निश्चला लोला सर्वविद्या तपस्विनी गङ्गाकाशी शची सीता सती सत्यपरायणा नीति सुनीति सुरुचिस्तुष्टि पुष्टिर्धृतिक्षमा वाणी बुद्धिर्महलक्ष्मीलक्ष्मीर्नीलसरस्वती स्रोतस्वती स्रोतवती मातङ्गी विजया जया नदीसिन्धुसर्वमयी ताराशून्यनिवासिनी शुद्धातरङ्गिणी मेधालाकिनी बहुरूपिणी सदानन्दमयी सत्या सर्वानन्दस्वरूपिणी सुनन्दानन्दिनी स्तुत्या स्तवनीया स्वभाविनी रङ्किणीटङ्किणी चित्रा विचित्रा चित्ररूपिणी पद्मा पद्मालया पद्मसुखी पद्मविभूषणा शाकिनी हाकिनी क्षान्ताराकिणी रुधिरप्रिया भ्रान्तिर्भवरुद्राणि मृडानि शत्रुमर्दिनी उपेन्द्राणि महेशानि ज्योत्साचेन्द्रस्वरूपिणी सूर्यात्मिका रुद्रपत्नी रौद्रीस्त्रीप्रकृतिः पुमान् शक्तिसूक्तिर्मतिमती भुक्तिर्मुक्तिपतिव्रता सर्वेश्वरी सर्वमता सर्वाणि हरवल्लभा सर्वज्ञा सिद्धिता सिद्धा भव्या भव्या कर्तृहर्त्रीपालयित्री शर्वरितामसीदया तमिस्रायामिनिष्ठा च स्थिराधीरा तपस्विनी चार्वङ्गी चञ्चला लोलज्जिह्वाचारुच्चरित्रिणी त्रपात्रपावती लज्जा निर्लज्जा हरिं रजोवती सत्त्ववती धर्मनिष्ठा श्रेष्ठा निष्ठुरवादिनी गरिष्ठा दष्टसंहर्त्री विशिष्टाश्रेयसिघृणा भीमा भयानका भीमानादिनीभिप्रभावती भी वागीश्वरी श्रीर्यमुना यज्ञकर्त्री यजुप्रिया ऋक्सामाथर्वनिलया रागिणी शोभनस्वरा कलकण्ठी कम्बुकण्ठी वेगुवीणा परायणा मौषिनी वैष्णवी स्वच्छा धात्री शुचि मधुमतिकुण्डलिनी ऋद्धिसिद्धिशुचिस्मिता रामा, रामारोहिणी रेवती रमा शङ्खिनी चक्रिणी गदिनी पद्मिनी तथा शूलिनी परिघास्त्रा च पाशिनी शार्ङ्गपाणिनि पीनाकधारिणि धूम्रा शरभिवनमालिनी वज्रिणी समरप्रीता वेगिनी रणपण्डिता जटिनी बिम्बिनी नीला लावण्याम्बुद्धिचन्द्रिका बलिप्रिया सदा पूजा पूर्णा दैत्येन्द्रमाथिनी महिषासुरसंहन्त्रीवासिनी रक्तदन्तिका रक्तपारुधिराक्ताङ्गी रक्तखर्परहस्तिनी रक्तप्रिया मासरुचिरा सवासरक्तमानसा कलक्षोणितमुण्डालिकण्ठमाला विभूषणा चवासनाचितान्तस्था माहेशी वृषवाहिनी व्याघ्रत्वगम्बराचीनचेलिनी सिंहवाहिनी वामदेवी महादेवी गौरी सर्वज्ञभाविनी बालिका तरुणी वृद्धा वृद्ध जरातुरा सुभ्रुर्विलासिनी स्वप्नावती चित्रलेखालोपमुद्रा सुरेश्वरी अमोघा रुन्दती तीक्ष्णा भोगवायनुवादिनी मन्दाकिनी मन्दहासा ज्वालमुख्यसुरान्तका मानदा मानि मान्या माननीया भदोत्तथा मदिरा मदिरान्मादा मिथ्या नव्याप्रसादिनी सुमथ्यानन्दगुणिनी सर्वलोकोत्तमोत्तमा जयदा चित्वरा जेत्री जयश्रीर्जयशालिनी सुखदा शुभदा सत्या सभा शिवदूती संक्षोभकारिणी शिवदूतिभूतिमती विभूतिर्भीषणानना कौमारी कुलजाकुन्ती कुलस्त्री कुलपालिका कीर्ति यशस्विनी भूषा भूषा भूतपतिप्रिया सगुणा निर्गुणा धृष्टा निष्ठा प्रतिष्ठिता धनिष्ठा धनदा धान्या वसुधा स्वप्रकाशिनी उर्वी गुर्वी गुरुश्रेष्ठा सगुणा त्रिगुणात्मिका महाकुलीना निष्कामा सकामा कामजीवना कामदेवकला रामाभिरामा शिवनर्तकी चिन्तामणिकल्पलता जामृती दीनवत्सला कार्तिकी कीर्तिका कुत्या अयोध्या विषमा सुमन्त्रा मन्त्रिणि घूर्णालादिनि क्लेशनाशिनी त्रैलोक्यजननि हृष्टा निर्मासामनुरूपिणि जठरा, शुष्कमासास्ति मालिनी अवन्तिमथुरा माया त्रैलोक्यपावनीश्वरी व्यक्ताव्यक्तानेकमूर्ति शर्वरी भीमनादिनी श्रीमङ्करी शङ्करि च सर्वसम्मोहकारिणि अर्धतेजस्विनी क्लिन्ना महातेजस्विनी तथा अद्वैता भोगिनी पूजा युवती सर्वमङ्गला सर्वप्रियङ्करी धरणी पिशिताशना भयंकरी पापहरा निष्कलङ्का वशङ्करी आशा तृष्णा चन्द्रकला निद्रान्या वायुवेगिनी सहस्रसूर्यसङ्काशाचन्द्रकोटिसमप्रभा वहिनमण्डलसंस्था च सर्वतत्त्वप्रतिष्ठिता सर्वाचारवतः सर्वदेवकन्याधिदेवता दक्षकन्या दक्षयज्ञनाशिनी दुर्गतारिका ईचा पूजा विभिर्भूर्ति सत्कीर्तिर्ब्रह्मरूपिणी रम्भोरुश्चतुरा राका जयन्ती करुणाकुः मनस्विनी देवमाता यशस्या ब्रह्मचारिणी वृत्तिदा वृत्तिता वृद्धिः सर्वात्या सर्वदायिनी आधाररूपिणि ध्येया मूलाधारनिवासिनी आज्ञा प्रज्ञा पूर्णं मनश्चन्द्रमुख्यनुकूलिनी वावदूकानिं नर्नाभिसत्या सन्ध्या दृढव्रता आन्वीक्षिकी दण्डनीतिस्त्रयि त्रिदिवसुन्दरी ज्वलिनी ज्वालिनी शैलतनया विन्ध्यवासिनी अमेया खेचरी धैर्यातुरीया विमलातुरा। तुरा प्रगल्भावारुणिच्छाया शशिनी विस्फुलिङ्गिनी भुक्तिसिद्धि सदा प्राप्तिप्राकाम्या महिमानिमा इच्छासिद्धिर्विसिद्धा च वशित्वोर्ध्वनिवासिनी लिमा चैव गायत्री सावित्री भुवनेश्वरी मनोहराचिता दिव्या देव्योदारा मनोरमा पिङ्गला कपिला जिह्वा रसंज्ञा रसिकारसा सुषुम् नीडा गांधारी नरकांतका पांचाली पाञ्चाली रुक्मिणी राधा राधा भीमाधिराधिका अमृता तुलसी वृंदा कैटवी कपटेश्वरी उग्रचण्डेश्वरी वीरा वीरसुन्दरी उग्रतारा यशोदाख्या देवकी देवमानिता निरञ्जनाचित्र देवी क्रोधिनी कुलदीपिका कुलवागीश्वरी वाणी मातृका द्राविणी ध्रुवा योगेश्वरी महामारी भ्रामरी बिन्दुरूपिणी प्राणेश्वरी गुप्ता बहुला चमरी प्रभा कुब्जिका ज्ञानिनी ज्येष्ठा भूषण्डी प्रकटातिथिः द्राविणी गोपनी माया कामबीजेश्वरी क्रिया शाम्भवि केकरा मेना मुशलास्त्रातिलोत्तमा अमेय विक्रमा क्रूरा सम्पत्शाला त्रिलोचना सुस्ति हव्यवः प्रीतिरुष्मा धूम्रार्चिरङ्गदा तपिनी तापिनी विश्वा भोगदाधारिणी धरा त्रिखण्डाबोधिनी वशासकला शब्दरूपिणी बीजरूपा महामुद्रा योगिनी अनङ्गकुसुमानङ्गमेखलानङ्गरूपिणी वज्रेश्वरी च जयिनी सर्वत्वन्वक्षयङ्करी षडङ्गयुवतीयोगयुक्ता ज्वालांशुमालिनी दुराशया दुराधारा दुर्जया दुर्गरूपिणी दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा हंसेश्वरी त्रिकोणस्थशाकम्भर्यनुकम्पिनी निलया नित्या परमामृतरञ्जिता महाविद्येश्वरी श्वेता भैरुण्डा कुलसुन्दरी त्वरिता भक्तिसंसक्ता भक्तवशा सनातनी भक्तानन्दमयी भक्तभाविका भक्तशङ्करी सर्वसौन्दर्यनिलया सर्वसौभाग्यशालिनी सर्वसंभोगभवना सर्वसौख्यनिरूपिणी कुमारी पूजनरता कुमारीव्रतचारिणी कुमारी भक्तिसुखिनी कुमारी रूपधारिणी कुमारी पूजक प्रीता कुमारी प्रीतिदा प्रिया कुमारी सेवका सङ्गा कुमारी सेवकालया आनन्द भैरवि बालाभैरवि वटुक भैरवि स्मशान भैरवि कालभैरवि पुरभैरवि महाभैरवपत्नी च परमानन्दभैरवी सुधानन्दभैरवी च उन्मादानन्दभैरवी मुक्तानन्दभैरवी च तथा तरुणभैरवी ज्ञानानन्दभैरवी च अमृतानन्दभैरवी महाभयङ्करी तीव्रातीव्रवेगा तपस्विनी त्रिपुरा परमे ज्ञानी सुन्दरी पुरसुन्दरी त्रिपुरेशी पञ्चदशी पुरवासिनी महासप्तदशी चैव षोडशी त्रिपुरेश्वरी महाङ्कुशस्वरूपा च महाचक्रेश्वरी तथा नवचक्रेश्वरी चक्रेश्वरी त्रिपुरमालिनी राजराजेश्वरी धीरा महात्रिपुरसुन्दरी सिन्दूरपुररुचिरा श्रीमत्त्रिपुरसुन्दरी सर्वाङ्गसुन्दरी रक्ता रक्तवस्त्रोत्तरीहिणी जावा रक्तचन्दनधारिणी जावायावकसिन्दूर रक्तचन्दनरूपदृ जावा रक्त चामरी बालकुटिलनिर्मल श्यामकेशिनी वज्रमौक्तिकरत्नाट्यकिरीटमुकुटोज्ज्वला कुञ्जरेश्वरकुम्भोत्थ मुक्ता रञ्जितनासिका मुक्ता विद्रुम माणिक्यहाराढ्यस्तनमण्डला सूर्यकान्तेन्दुकान्ताढ्य स्पर्शाश्मकण्ठभूषणा बीजपूरस्फुरद्बीज दन्तपङ्क्तिरनुत्तमा कामको दण्डका भुग्न मातङ्गकुम्भवक्षोजालसत्कोकनदीक्षिणा मनोज्ञश्कुलीकर्णाः सीगतिविडम्बिनी पद्मरागाङ्गदज्योतिदोश्चतुष्कप्रकाशिनी नानामणि परिस्फूर्चच्छुद्र काञ्चनकङ्कना नागेन्द्रदन्तनिर्माणवलयाङ्कितपाणिनी अङ्गुरीयकचित्राङ्गी विचित्रक्षुद्रघण्टिका पट्टाम्बरपरिधाना कलमञ्जीरषिञ्जिनी कर्पुरागरुकस्तूरी कुङ्कुमत्रवलेपिता विचित्ररत्नपृथिवी कल्पशाखीतलस्थिता रत्नद्वीपस्फुरद्रक्तसिंहासनविलासिनी षट्चक्रभेदनकरी परमानन्दरूपिणी सहस्तदलपद्यान्तश्चन्द्रमण्डलवर्तिनी ब्रह्मरूप शिवक्रोडनानासुखविलासिनी हरविष्णुविरिचिन्द्रग्रहनायकसेविता शिवा शैवाच रुद्राणि तथैव शिववादिनी मातङ्गिनी श्रीमती च तथैवानन्दमेखला डाकिनी योगिनी चैव तथोपयोगिनी मता माहेश्वरी अलम्बुषा वेगवती क्रोधरूपा सुमेरवला गान्धारी हस्तजिह्वा च इडा चैव शुभङ्करी पिङ्गला ब्रह्मदूती च शुशुम्ना चैव गन्धिनी आत्मयोनिर्ब्रह्मयो निजा, भगरूपा भगस्थात्री भगिनी भगरूपिणी भगात्मिका भगाधाररूपिणी भगमालिनी लिङ्गाख्या चैव लिङ्गेशी त्रिपुरा भैरवी तथा लिङ्गगीतिस् सुगीतिश्च लिङ्गस्था लिङ्गरूपधृक् लिङ्गमाना लिङ्गभवा लिङ्गलिङ्गा च पार्वती भगवती कौशिकी च चा, प्रेमा चैव प्रियं वदा गृद्धरूपा शिवारूपा चक्रिणी चक्ररूपधृक् लिङ्गाभिधायिनी लिङ्गप्रिया लिङ्गनिवासिनी लिंगस्था लिंगिंगण लिंगसुंदरी लिंग गीतिमहाीता भगगीतिमहासुखा लिंगनाम सदानंद भगनाम सदा गति लिंगमाला कंठभूषा भगमला विभूषण भगलिंगा मृतप्रीता भगलिंग स्वरूपिणी भगलिंग से भगलिंगसुखा वहा स्वयम्भू कुसुमप्रीता स्वयंभू कुसुमार्चिता स्वयंभू कुसुमप्राणा स्वयंभूपुष्पतर्पिता स्वयंभूपुष्पघटिता स्वयम्भूपुष्पधारिणी स्वयंभूपुष्पतिलका स्वयंभूपुष्पचर्चिता स्वयंभूपुष्पनिरता स्वयम्भूः कुसुमग्रहा स्वयंभूपुष्पयज्ञांशा स्वयम्भू कुसुमात्मिका स्वयंभू पुष्पनिचिता स्वयंभू कुसुमप्रिया स्वयंभू कुसुमादानलालसोन्मत्तमानसा स्वयम्भू कुसुमानन्दलहरी स्निग्धदेहिनी स्वयम्भू कुसुमा धारा स्वयम्भू कुसुमाकुला स्वयम्भू पुष्पनिलया स्वयंभू पुष्पवासिनी स्वयंभू कुसुमस्निग्धा स्वयंभू कुसुमात्मिका स्वयंभू पुष्पकारिणिः स्वयंभू पुष्पवाणिका स्वयंभू कुसुमध्याना स्वयंभू कुसुमप्रभा स्वयं भू कुसुमज्ञाना स्वयं भूपुष्पभागिनी स्वयं भू कुसुमोल्लासा स्वयं भूपुष्पवर्णिनि स्वयंभू कुसुमोत्साहा स्वयंभूपुष्परूपिणी स्वयंभू कुसुमोन्मादा स्वयंभू पुष्पसुन्दरी स्वयंभू कुसुमाराधा स्वयंभू कुसुमोद्भवा स्वयम्भू कुसुमव्याघ्रा स्वयंभू पुष्पपूर्णिता स्वयम्भूपूजकप्रज्ञा स्वयंभू होतृमातृका स्वयं भूदातृरक्षित्री स्वयंभूरक्ततारिका स्वयं भूपूजकग्रस्ता स्वयम्भूपूजकप्रिया स्वयंभू स्वयंभू निन्दकांतका स्वयम्भूवन्दकाधारा स्वयंभूनिन्दकान्तका स्वयम्भूप्रद सर्वस्वा स्वयंभूप्रदपुत्रिणी स्वयम्भूप्रद सस्मेरा स्वयम्भूप्रदशरीरिणी सर्वकालोद्भवप्रीता सर्वकालोद्भवात्मिका सर्वकालोद्भवोद्भावा सर्वकालोद्भवोद्भवा कुण्डपुष्पः सदा प्रीतिगेलिपुष्पसदा रतिः कुण्डगोलोद्भवप्राणा कुण्डगोलोद्भवात्मिका स्वयं भु वा शिवा धात्रीपावनी लोकपावनी कीर्ति यशस्विनी मेधा विमेधा शुक्रसुन्दरी अश्विनी कृत्तिका पुष्या चन्द्रमण्डला सूक्ष्मा सूक्ष्मावलाका भयनाशिनी。वरदा वरदाभयदा चैव मुक्तिबन्धविनाशिनी कामुदा कामदा कान्ता कामाख्याकुलसुन्दरी दुःखदा सुखदा मोक्षा मोक्षदार्थप्रकाशिनी दुष्टा दुष्टमतिश्चैव सर्वकार्यविनाशिनी शुक्राधारा शुक्ररूपा शुक्रसिन्धुनिवासिनी शुक्रालया शुक्रभोगा शुक्रपूजा सदा रतिः शुक्रपूजा शुक्रहोम सन्तुष्टा शुक्रवत्सला शुक्रमूर्ति शुक्रदेहा शुक्रपूजकपुत्रिणी शुक्रस्था शुक्रिणी शुक्रसंस्पृहा शुक्रसुन्दरी शुक्रस्नाता शुक्रकरी शुक्रसेव्यातिशुक्रिणी महाशुक्रा शुक्रभवा शुक्रवृष्टिविधायिनी शुक्राभिधेया शुक्रार्हा शुक्रवन्दकवन्दिता शुक्रानन्दकरी शुक्र सदानन्दाभिधायिका शुक्रोत्सवा सदा शुक्रपूर्णा शुक्रमनोरमा शुक्रपूजकसर्वस्वा शुक्रनिन्दकनाशिनी शुक्रात्मिका शुक्रसंवत् शुक्राकर्षणकारिणी शारदा साधकप्राणा साधका संवतमानसा साधकोत्तमसर्वस्व साधका भक्तरक्तपा साधकानन्दसन्तोषा साधकानन्दकारिणी आत्मविद्या ब्राह्मविद्या परमब्रह्मस्वरूपिणी त्रिकुण्स्था पञ्चकूटा सर्वकूटशरीरिणि सर्ववर्णमयी वर्ण, वर्ण जपमाला विधायिनी